कथं व्यसनिनं द्यूते पार्थौ माद्रीसुतौ तदा अन्वयुस्ते नरव्याघ्राबाध्यमाना दुरात्मभिः कथं धर्मभृतां श्रेष्ठः सुतो धर्मस्य धर्मवित् अनर्हः परमं क्लेशम् सोढवान् स युधिष्ठिरः कथञ्च बहुलाः सेनाः पाण्डवः कृष्णसारथिः अस्यन्नेको नयत् सर्वाः पितृलोकं येतदा चक्ष्वमे सर्वं यथा वृत्तं तपोधन यद्यच्च कृतवन्तस्ते तत्र तत्र महारथाः उवाच क्षणं कुरु महाराज विपुलोऽयमनुक्रमः पुण्याख्यानस्य वक्तव्यः कृष्णद्वैपायनेरितः महर्षेः सर्वलोकेषु पूजितस्य महात्मनः प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामि ततेजसः इदं शतसहस्रं हि श्लोकानां पुण्यकर्मणां सत्यवत् ्यात्मजेनेह व्याख्यातममितौजसा यदं श्रावयेद्विद्वान् ये चेदं शृणुयुर्नराः ते ब्रह्मणः स्थानमेत्यप्राप्नुयुर्देवतुल्यताम् इदं हि वेदैः समितं पवि मपि चोत्तमम् श्राव्याणामुत्तमम् चेदम् पुराणम् अस्मिन्नर्थश्च धर्मश्च निखिलेनोपदिश्यते इतिहासे महापुण्ये बुद्धिश्च परिनैष्ठिकी अक्षुद्रान् दानशीलांश्च सत्यशीला न नास्तिकान् कार्ष्णं वेदमिमं विद्वान्च्छ्रावयित्वार्थमश्नुते भ्रूणहत्याकृतं चापि पापं जह्यादसंशयम् इतिहासमिमं श्रुत्वा पुरुषोऽपि सुदारुणः मुच्यते सर्वपापेभ्यो राहुणा चन्द्रमायथा जयो नामेतिहासोऽयं श्रोतव्यो विजिगीषुणा महीम विजयते राजा शत्रूंश्चापि पराजयेत् इदम् पुंसवनम् श्रेष्ठमिदम् स्वस्त्ययनम् महत् महिषीयुवराजाभ्याम् श्रोतव्यम् बहुशस्तथा वीरं जनयते पुत्रं कन्यां वा राज्यभागिनीं धर्मशास्त्रमिदं पुण्यमर्थशास्त्रमिदं परम् मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना